गर्गसंहितखण्डं नैन् विज्ञानखण्डम् अध्यायं फैव् श्रीवेदव्यास उवाच कपी बल्वल शङ्घशाल्वाहा वैरेण यं किमुदभ्रि युदा नरेन्द्र प्रापुः परं प्रकृतिपूरुषयोः पुमांसम् उवासुरावधिबलौ मधुकैडभाख्यौ स्वर्णाक्षहेम कशिपूच तथा परौ वैरं विधाय नृपरावण कुम्भकर्णौ विष्णो किलापतुरलं परमं पदं हि के केन विष्णुपदमागधवन्द आदौ प्रह्लादबाणबलियक्षविभीषणाद्याः सत्सङ्गसङ्गनिरदा बहुमानपात्र श्रीमत्पदाब्जमकरन्दरजो विलुब्धाः देवर्षि गेष्पदिवसिष्ठपराशराद्याः साङ्ख्यायनासितशुकासनकादयश्च निष्कारणाभुवि चरन्त्यरविन्दनेत्र पादारविन्दमकरन्दमिलिन्दमुख्याः यत्युक्कालाङ्गभर्तार्जुनमैथिलाश्च गाधिप्रियव्रत यदु प्रमुखाम्बरीषा निष्कादनपरमहंसवराश्चारन्दी श्रीकृष्णचन्द्रचरितामृतपानमत्ताः मन्दोदरी च शबरी च मदङ्गशिष्यास्तरा तथा त्रिवनिदानिपुणात्व हल्या तधा तथा द्रुपदराजसुधा सुभक्ता यदा परमपरमहंस समाप्रसिद्धाः वरकाग सुग्रीववालिसुधवादसुदर्क्षराजनागारिगृध्र वरकाकभुषुण्डिमुख्याः कुब्जादिवायक सुधामगुहादायोऽन्ये तत्सङ्गमेत्य हरिभक्तवरा बभूवुः कृष्णं न धर्मतपोन योगः संख्यं न यज्ञ उदतीर्थ यमव्रतानि चन्दांसि पूर्त नियमा वध दक्षिणा च नेष्टं न दानमदभक्तिमृदेन कश्चित् यज्ञव्रताद्यजनतीर्थ तपो नियोगैरिष्टस्वधर्म नियमादिक साङ्ख्ययोगैः यत्प्राप्यते तदखिलं भवदीहभक् भक्तेः पदं हि कर्हि चिह्नभवेत् किलैभिः उद्धारिणी यमपुरस्य च विश्वरूपा दुत्तरिणी भवमहार्णववारिवेगाद वा संहारिणि विषयसञ्चितकर्मणा च सरिणि हरिपदस्य परात्परस्य श्रीकृष्णदर्शन रसोत्सुकभावराज दुद्यत् वत्सन्द परमोत्सव पञ्चमीयम् दिव्यालतादिफलपल्लवभारनम्रा सम्राजदेहि सतदं कुसुमाकरस्य सम्मोहकालखनमध्यतडिस्फुरन्दी शास्त्रार्थदर्शवचसाम् पदीपिगेयम् दीपावलिर्विजयदे जय कार्तिकस्य जेतुं गुणान् विजयिनो दशमी जयस्य साङ्ख्यं च योगयि दीपार्श्वगदे दण्डे कीलानि चात्र शदशो गुणभावभेदाः अस्या क्रमान्नवकथाश्रवणादयश्च श्रेणीयमस्ति सरला भगवत्पदस्य यदि श्रीगर्गसंहितायाम् विज्ञानखण्डे श्रीव्यासोग्रसेन संवादे भक्त्युत्कर्षवर्णनम् नाम पञ्चमोऽध्यायः ओ अध्यायम् सिक्स् उग्रसेन उवाच कर्मग्रहो गृहस्थोऽयम् श्रीकृष्णस्य महात्मनः सेवां वैकेन विधिना कुर्यात्तद्ब्रूचि मे मुने भक्त्यङ्कुरो यस्य नास्ति वास्ति तस्य न वर्धते तस्य केन प्रकारेण प्रसन्न स्याद्धरि स्वयम् श्रीव्यास उवाच यदि भक्त्यङ्कुरो न स्यात् सत्सङ्गेन स बलाद् विवर्धते तस्मात् सदा सङ्गम् समाचरेत् कृष्णसेवाविधिम् तुभ्यं वक्ष्यामि सुलभं परम् यया गृहस्थोऽयम् शीघ्रम् श्रीकृष्णम् प्राप्नुयान्नृप आचार्यम् कुलसम्भोधम् श्रीकृष्णध्यानतत्परम् एतादृशं गुरुम् कृत्वा सिद्धो भवदिभान भान् भवति मानवः गुरो सेवाविधिं शिक्षेत् श्रीकृष्णस्य महात्मनः विष्णो दीक्षाविहीनस्य सर्वं भवति निष्फलम् निर्गुरोर्दर्शनं कृत्वा हतपुण्यो भवेन्नरः उत्तराभिमुखं शश्वत्कारये धरिमन्दिरम् तत्र सिंहासनं प्रोच्यं सपीठम् कुम्भमण्डितम् सच्चिदानन्दनाम स्यात् सोपानत्रयभूषितम् महार्कवस्त्रैराच्छन्नं तत्र तुल्यासनं मृदु पार्श्वोपबर्षणयुधं स्फुरद्धेमाम्बरावृतं नानाचित्रयुधै कुड्यैरन्धपड समन्वितैः सर्वतो मण्डलैस्तद्वत्तोरणैः समलङ्कृतम् गवाक्ष वार्यन्त्राढ्यम् चतुःशाल सुचालकैः राजदप्राङ्गणोदेशसभा मण्डपमण्डितः तत्र प्राङ्गणमध्ये तुलसीमन्दिरम् शुभम् मन्दिरस्य बहुर्द्वारि कारयेद्दीपिकाद्वयं तथा वै कृत्रिमं राजन् सिंहद्वयमधिष्ठितम् सुवर्णशिखरस्याधश्चक्रं च शिखरोपरि द्वारेऽपि हरिनामानि प्रालेख्यानि शुभानि च शङ्खम् पद्मं गदां शार्ङ्गमालेख्यं भित्तिपार्श्वयोः इषुधीज जतधा बाणसव्यदक्षिण एव च तथा मन्दिरपृष्ठे वै शतचन्द्रम् च नन्दनम् हलं च मुसलम् चैव लेखनीयम् प्रयत्नदः सिंहासनस्य पृष्ठे गोप्यो गावस्तथैव च गोपालास्तत्र सोपाने कपाडे विजयोजयः देहल्याङ्कल्पवृक्षश्च स्तम्भेषु च लतां शुभां यत्र तत्र च कुड्येषु श्रीगङ्गा पापहारिणी वृन्दावनं गोवर्धनं यमुना पुलिनानि च तथा वैचीरहरणमालेख्यं रासमण्डलं चित्रकूढपञ्चवडी लेखनीयं प्रयत्नदः रामरावणयोर्युद्धं जानकी हरणं विना दशावतारचित्राणि नरनारायणाश्रमः सप्त पुर्यस्त्रयो नवारण्यं नवोपराः एवं लिखित्वा चित्राणि मन्दिरं कारयेद्बुधः वंशीभावोद्यतकरं वक्रीभूताङ्क्रिदक्षिणम् किशोराकृतिकृष्णस्य रूपं सेव्यतमं स्मृतम् तत्प्रतिष्ठाम् विधायासु गुरुहस्तेन मन्दिरे भक्तपरमया भक्त्या स्थापयेत् तत्परो भवेद तत्प्रसादे च रसनाङ्घ्राणं च तुलसीदले कर्णौ तत्कथायामेवं सेवापरो भवेद अहर्निशं कृष्ण यः करोति ज भावविद तं प्रेमलक्षणं भक्तं विद् भागवतोत्तमाः अश्वमेधसहस्राणि राजसूय च राजन् श्रीकृष्णसेवाया कलां नार्हन्धिषोडशीं श्रीकृष्णदेशिकस्यापि यक्कुह्यादर्शनम् नरः कोटिजन्मकृतैपापैर्मुच्यदे नात्र संशयः देहान्ते दे तम् समानेतुम् श्यामसुन्दरविग्रहाः रथम् नीत्वा प्रधावन्ति गोलोकात्कृष्णपार्षदाः युधि श्रीगर्गसंहिताय विज्ञानखण्डे श्रीव्यासोऽग्रसेनसंवादे हरिमन्दिरप्रतिष्ठावर्णनम् नाम षष्ठोऽध्यायः ओ अध्यायम् सेवेन् श्रीवेदव्यास उवाच ब्राह्मे मुहूर्ते चोद्धाय कशिपोश्च मुदा नृप गुरोर्नाम च गोविन्दनामानि प्रवदन्मुहुः भूमिं नत्वा न्यसेत्पादं जलं स्पृष्ट्वा हरेर्जनः उपविश्यासने शीघ्रं सकामो यो यथा सुखम् अस्ता उत्सङ्क आधाय श्वास जित्प्राणमास्तिदः ज्ञानमुद्राधरं शान्तं श्रीगुरुं स्वस्तिकासनं ध्यात्वा कृष्णं परं ध्यायेद्भक्त एकाग्रमानसः किशोरम् श्यामलम् हृद्यम् वंशी वेऽत्र विभूषितम् एवम् कृत्वा हरिर्ध्यानम् पुनर्गच्छेत् बहिस्तलम् तच्छौचम् शृणुराजेन्द्र गृहस्तस्य यथा तथम् अश्वक्रान्तेधिमन्त्रेण मृत्स्नयाजलेन जलेनजा एकालिङ्गे गुदे तिस्रस्तथा वामकरे दश एतत् चतुर्गुणम् प्रोक्तम् यदीनाम् हरिसेविनाम् तदर्थम् रोगि पान्धानाम् स्त्रीशूद्राणाम् तदर्थकम् शौचकर्मविहीनस्य सकला निष्फला क्रियाः मुखशुद्धिविहीनस्य मन्त्रा न फलदा स्मृताः आयुर्बलम् व्यशोवर्चप्रजा पशुवसूनि च ब्रह्मप्रज्ञां च मेधां च त्वन्नो देहि वनस्पते यदि मन्त्रं समुच्चार्य कुर्याद्वै दन्तधावनं हरिद हर्य मन्त्रेण सूर्यं नत्वा कृताञ्जलिः प्रणमेद्धरिभक्तांश्च प्रह्लादादीन् समाहिदः तुलसीमृत्तिकां नीत्वा तदस्नानं समाचरेद पठितव्यं प्रयत्नेन श्रीगङ्गा यमुनाष्टकम् अयोध्या मधुरा माया काशी काञ्ची अवन्तिका पुरीद्वारावदी चैव सप्तैः दा मोक्षदायिकाः शालिग्रामो महायोगे शम्बलो हरिमन्दिरे नन्दिग्रामकौशले दोत्रेयो नन्दिग्रामकौशलेदु त्रयो ग्रामा प्रकीर्तितः दण्डकं सैधवारण्यं जम्बुमार्गं च पुष्कलम् उत्पलावर्तमारण्यं नैमिषं कुरुजङ्गलम् अर्बुदं हेमबन्तं च न वारण्यानि वै विदुः एतानि तीर्थनामानि समुच्चार्य पुनः पुनः युद्धं स्नात्वा क्षौममुत्तमम् द्वादशां स्तिलकान् बिभ्रदष्टमुद्राधरः परः कृतसन्ध्यस्युतिर्मौनी गत्वा श्रीकृष्णमन्दिरं खण्डावाद्यां जयारावन्तलशब्दं विधाय च उक्त उत्तिष्ठोत्तिष्ठगोविन्दयोगनिद्राम् विहाय च उक्त्वा पी मां स्मृतिं राजन् भक्त उद्धापयेद्धरिं मङ्गलार्तिं समाधाय भ्रामयम् तन्मुखोपरि निवेद्य बहुपक्वान्नम् नत्वा नत्वा पुनः पुनः तदस्नानं कारयित्वा देशपालप्रभावविद शृङ्गारम् भाववित् कृत्वा आर्तिक्यम् तु तद कृत्वा भोजा भोज्यान्नम् च विधाय च ततो धृत्वा महाभोगम् नानारसमयम् परम् कृत्वा कारये चयनं हरेहे। तदप्रसादम् परमम् तुलसी गन्धमिश्रितम् भुञ्जीदयो हरिर्नित्यम् सकृतार्थो न संशयः राजभोगार्तिकम् कृत्वा कारये चयनम् हरेहे, सङ्घनादेन विधिवद्भोगम् धृत्वा यथा विधि तदा सन्ध्यार्थिकम् कृत्वा दुग्धादीन् विनिवेद्य च तदप्रदोषसमये पुनरार्तिकमाचरेद धृत्वा भोगम् परम् इष्टम् अरे चयनम् हरेः राजसे चैवराजेन्द्रराजसेवेयमस्ति वै सर्वं श्रीकृष्णचन्द्रस्य सेवा संलग्नमानसः तारयित्वा तारयित्वा कुलशतं यादि चात्यन्तिकम् पदम् जन्माष्टमी च कृष्णस्य श्रीरामनवमी तथा राधाष्टम्यन्नकूडं च द्वादशी वामनस्य च चा। चतुर्दशी नृसिंहस्य तदनन्तचतुर्दशी येषु कालेषु कृष्णस्य महापूजां समाचरेत् यदि श्रीकर्गसंहितायां विज्ञानखण्डे श्रीव्यासोग्रस्यनसंवादे राज सेवा वर्णनम् नाम सप्तमोऽध्यायः ओ अध्यायम् एट् श्रीव्यास उवाच अथ स्नात्वा च कृत्वा च नित्यनैमिति गीम् क्रियाम् पञ्चवर्णसमायुक्तम् शुद्धे तण्डिलमण्डले द्वात्रिंशद्दलसंयुक्तम् कार्णिकाकेसरोज्ज्वलम् विधायकमलं स्थाप्य विधिवद्वेदसूक्तिभिः कर्णिकायां न्यश्राजन् हरे सिंहस्तनम् रमां स्थाप्य भूदेवीम् विरजाम् तथा तन्मध्ये स्थापयेत्साक्षात् पुरुषोत्तमम् तथाष्टदलमध्ये तुधिकाष्टसखी शुभाः तदोष्टदलमध्ये दुः श्रीकृष्णस्य तथा सखीन् तथा षोडशवर्णेषु सखीनाम् च द्वयम् द्वयम् कमलस्य च पार्श्वे शुशङ्कम् चक्रम् ददाम् तथा पद्मम् च नन्दकम् शार्ङ्गम् बाणांश्च मुसलम् फलम् कौस्तुभं वनमालां च श्रीवत्सं नीलमम्बरं पीदाम्बरं तथा वंशीं पेत्रं च स्थापयेद्बुधः तदपार्श्वेषु तालाङ्गं गरुडाङ्गं रथं तथा सुमतिं दारुकं सोदं गरुडं कुमुदं तथा चण्डं चैव प्रचण्डं च बलं चैव महाबलम् कुमुदाक्षम्बलम् चैव स्थापयेद्यत्नदसुधीः तथा दिक्षु च दिक्पालान् संस्थाप्य च पृथक् पृथक् विश्वत्सनम् शिवम् माम् च विधिम् दुर्गाम् विनायकम् नवग्रहांश्च वरुणम् तथा षोडश माधृकाः तत्पद्माग्रे विधिहोत्रम् तण्डिले स्थापयेद्बुधः आवाहनमासनं च पाद्यमर्घ्यं विशेषतः स्नानं च मधुपर्कं च धूपं दीपं तथैव च यत्नोपवीतं वस्त्रं च भूषणं गन्धमेव पुष्पं तदा क्षदांश्चैव नैवेद्यं च मनोहरम् आचमनं प्रदातव्यं ताम्बूलं दक्षिणां तदा प्रदक्षिणां प्रार्थनां च तथा निराजनं स्मृतम् नमस्कारम् तथा कुर्यात्कर्मणा च पृथक् पृथक् आवासने पुष्पाणि आसने तु कुशद्वयम् पाद्येष्यामाञ्च दूर्वाञ्च विष्णुक्रान्ताम् तथैव च सौगन्धिकानि पुष्पाणि अर्घ्ये योग्यानि यादव चन्दनो शीरकर्पूर कुङ्गुमा गुरुमिश्रितं यदादृशं जलं योग्यं स्नाने राजन्महामदे मधुपर्के ह्यामलकमरविन्दं तदा मदं धूपे गन्धाष्टकं देयं दिवे कर्पूरमेव च यज्ञोपवीतं पीतं च वस्त्रे पीदम्बरं मदम् भूषणे चौवर्ण गंधे कुंगुमचंदने तुसी मंजरी पुष्पेस स्युस्तु तंडुलाह नैवेद्ये दुर्स भोगा भोगनाधा मदा जले गंगाजल योग्य यमुना जलमे वजा जादी जलमेज जाोलमं चाच मने नृप ताम्बूले चोषणम् त्वेला दक्षिणायाम् तु हाटकम् प्रदक्षिणायाम् भ्रमणम् घृतम् निराजने गवाम् प्रार्थनायाम् हरेर्भक्तिप्रेमलक्षण संयुधा नमस्कारे महाराज साष्टाङ्गनदविग्रहः द्वादशाक्षरमन्त्रेण शिखम् बद्ध्वा शुजिपुमान् उपचारान् पुरस्कृत्य श्रीमुखे सम्मुखो भवेत् इति श्रीगर्गसंहितायाम् विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे महापूजाविधिवर्णनम् नामाष्टमोऽध्यायः ओम् अध्यायम् नैन् श्रीव्यास उवाच उपचारस्य मन्त्राणि वेदोक्तानि शुभानि च तुभ्यम् वक्ष्यामि राजेन्द्र शृणुष्वैकाग्रमानसः अथा वाहनम् गोलोकधामाधिपदे रमापदे गोविन्ददामोदर दीनवत्सला राधापदे माधव सात्वताम् मम सम्मुखो भव अधासनम् श्रीपद्मरागस्फुरदूर्ध्वपृष्ठम् महार्हवैदूर्यखचित्पदाब्जम् वैकुण्ठ वैकुण्ठपदे गृहाण पीतम् तडिर्धाडग कुम्भखण्डम् अधपाद्यम् परं स्थितम् निर्मल योगेश वेदेश जगन्निवास गृहाणपाद्यम् प्रणमामि पादौ अध अर्घ्यम् जल चम्पकपुष्पसमन्वितम् विमलमर्घ्यमनर्कदरस्थितम् प्रतिगृहाणरमा रमणप्रभो यदुपदे यदुनाध यदूत्तम अध काश्मीरपाडीरविमिश्रितेन सुमल्लिकोश्यीरवदाजलेन स्नानं गुरुत्वं यदुनाधदेव गोविन्दगोपालकतीर्थपाद अथ मधुपर्कस्नानं मध्याह्नचन्द्रार्कभवं मलापकं सिताङ्गसम्पर्कमनोहरं परं गृहाणविष्णो मधु पर्कमेनम् सन्दृह्य पीताम्बरसात्त्वदाम्बदे अथ वस्त्रम् विभो सर्वदप्रस्फुरत् प्रोज्वलम् च स्फुरद्रश्मिरम्यम् परम् दुर्लभम् च स्वदोनिर्मितम् पद्मकिञ्चल्कवर्णम् गृहणाम्बरम् देव पीताम्बराख्यम् अध यज्ञोपवीधम् सुवर्णाभमापीदवर्णं सुमन्द्रैः परं प्रोक्षितं वेदविनिर्मिदं शुभं पञ्चकार्येषु नैमित्तिकेषु प्रभो यज्ञयज्ञो भवेदं गृहाण अधभूषणं कनकरत्नमयं मयनिर्मिदं मदनरुक्कदनं सदनं रुजाम् उषसिपूषसुवर्णविभूषणम् सकलोकविभूषणगृह्यताम् अध गन्धम् सन्ध्ये दुःशोभम् बहुमङ्गलम् श्रीकाश्मीरपाडीरकपङ्गयुक्तम् स्वमण्डनं गंधजयं गृहाण समस्तभूमण्डलभारभारिन् अधा क्षदान् ब्रह्मावर्ते ब्रह्मणा पूर्वमुक्तान् ब्राह्मैस्तोयै सिञ्चितान् विष्णुना च रुद्रेण रक्षितान् राक्षसेभ्यः साक्षाद्भू मन्न क्ष साक्षाद्भूत् मन्नक्षतां साक्षा त्वं गृहाण मन्दारसन्तानकपारिजातकल्पद्रुमश्रीहरिचन्दनानाम् गृहाणपुष्पाणि हरेतुलस्यामिश्राणि साक्षान्नवमञ्जरीभिः अथधूपम् लवङ्गपाडीरजचतुर्निमिश्रम् मनुष्यदेवासुरसौख्यदं च सद्यसुगन्धीकृतहर्म्यदेश्यम् द्वारावदीभूप गृहाणभूपम् अध दीपं तमोहारिणं ज्ञानमूर्तिं मनोज्ञं लसद्वर्तिकर्पूरपूरं गजा गवाज्यं जगन्नाथदेवप्रभो विश्वदीपस्फुरज्योतिषं दीपमुख्यं गृहाण अध रसैशरैर्भेदविधिव्यवस्थितम् रसैरसाढ्यम् च यशोमदीकृतम् गृहाणनैवेद्यमिदम् सुरोचकम् गव्यामृतम् सुन्दर नन्दनन्दन अध जलम् गङ्गोत्तरी वेगबलात्समुधृतम् सुवर्णपात्रेण हिमांशु शीतलम् सुनिर्मलाभम् ह्यमृतोपमम् जलम् राधावर गृहाणराधावरभक्तवत्सलः अथाचमनं राधापदे श्रीविरजापदे प्रभो श्रीयपदे सर्वपदे जभूपदे कङ्गोलजातिफलपुष्पवासिनं परं गृहाणाचमनं दयानिथे अथ ताम्बूलम् जादीफलैलासुलवङ्गनागवल्लीधलैपूगफलैश्च संयुधं मुक्ता सुधारसारयुक्तं गृहाणताम्बूलमिदं रमेश अथ दक्षिणा वसुपाल नाकपालवसुपालमौलिभिर्वन्दिताङ्घ्रियुगलप्रभो हरे दक्षिणां परिगृषाण माधवलोकदक्षवरदक्षिणाय ते अथनिराजनं प्रस्फुरत्परमदीप् प्रस्फुरत्परमदीप्तिमङ्गलं गोधृदा नवपञ्चवर्विकम् आर्तिकम् परिगृहाण चार्ति हन् पुण्यकीर्तिविशदी कृदावने अध नमस्कारः नमोऽस्त्वनन्दाय सहस्रमूर्तये सहस्रपादाक्षिशिरो बाहवे सहस्रनाम्ने पुरुषाय शाश्वते नमः अध प्रदक्षिणा समस्ततीर्थयज्ञदानपूर्तपादिजम् फलम् लभेत् परस्य शाश्वतम् करोति यः प्रदक्षिणा हरे मत्समः पादकी नास्ति भूमौ तथा त्वत्समो नास्ति पापापहारिः यदि च मत्वा जगन्नादेव यथे च भवेत् चेत्तथा मां गुरुत्वम् अधस्तुतिः सञ्ज्ञानमात्रम् सदसत्परं महच्च प्रशान्तं विभवं समं महद त्वां ब्रह्म वन्दे हि परम् सदा स्वधाम्ना परिभूतकैतवम् एवं सम्पूज्य देवेशमेभिर्मन्त्रैर्महामदे प्रणम्य विष्णुम् सर्वाङ्गपूजाम् कुर्यात् प्रयत्नदः ॐ नमो नारायणाय पुरुषाय महात्मने विशुद्धसत्त्वभीस्ताय महाहंसाय धीमहि इति मन्द्रेण प्राणायामम् कृत्वा ॐ विष्णवे मधुसूदनाय वामनाय त्रिविक्रमाय श्रीधराय हृषिकेशाय पद्मनाभाय दामोदराय सङ्घर्षणाय वासुदेवाय प्रद्युम्नाय अनिरुद्धाय अधोक्षदाय पुरुषोत्तमाय श्रीकृष्णाय नमः इति पादगुल्फ जानूरु काट्युदर पृष्ठभुजाकन्धर कर्णनासिकाधरनेत्र शिरस्सु पृथक् पृथक् पूजयामिति सर्वाङ्गपूजां कुर्याद तथा सखी सखशङ्खचक्रगदा पद्मासिधनुर्बाणहलमुसलादीन् तथा कौस्तुभवनमादा श्री वत्सपीदाम्बरनीलाम्बर वंशीवेत्रादीन् तथा तालाङ्क गरुडाङ्करध दारुग सुमधिसारधिगरुड कुमुद नन्द सुनन्दचण्डमहाबल कुमुदाक्षाधीन् प्रणवपूर्वेण च दुर्ध्यन्देन नमः संयुक्तेन तदा विश्वक्सेन दुर्गा विनायक शिवविधि दुर्गाविनायकदिपाल वरुणनवग्रहमातृकादीन् मन्त्रै पूजयेत् ॐ नमो वासुदेवाय नमः सङ्घर्षणाय च प्रद्युम्नायानिरुद्धाय सात्वदाम्पतये नमः इति मन्त्रेण शतमाहुतीर्जुहुयाद देवं प्रदक्षिणीकृत्य महाभोगं निधाय प्रणमे दण्डवद्भूमौ मन्द्रमेधमुदीरयेद येयं सदा परि तीर्थास्पदं शिवविरञ्जिनुदं शरण्यं भृत्यार्तिहन् प्रणतपालभवाब्धिबोधं वन्दे महापुरुषते चरणारविन्दम् इति नत्वा हरिं राजन् पुनर्नीराजनं हरेः कारयेद्विधिवद्भक्तो हरिभक्तजनैः सह कडीवाद्यरणखण्डाकांस्यवीणादिकीचकैः करदालमृदङ्गाध्यैकीर्तनं कारयेद्बुधः नृत्यन्ति श्रीहरेरग्रे भक्ता वै प्रेमविह्वलाः जयध्वनिसमयुक्ताः सत्कथा गानतत्पराः पुनः प्रभुं नमस्कृत्य मन्दिरे तव नोज्ज्वले शयनम् कारयेत् सम्यक् श्रीकृष्णस्य महात्मनः एवं करोति श्रीकृष्णसेवां यो लग्नमानसः प्रणमन्दितदं राजेन् प्रणमन्दितदं राजन् देवदा स्वर्गसम्भवाः सोऽपि राजेन्द्रनागेऽपि पदम् धृत्वा हरेर्जनः अन्धेयादि परम् धाम गोलोकम् योगि दुर्लभम् इति श्रीकृष्णसेवायाभिधानम् वर्णितं मया चतुपदार्थतं नृणाम् किम् भूय श्रोतुमिच्छसि इति श्रीगर्गसंहितायाम् विज्ञानखण्डे श्रीव्यासोग्रसेनसंवादे श्रीकृष्णसेवाविधानवर्णनं नाम नवमोऽध्यायः ओम् दशमोऽध्यायः उग्रसेन उवाच सिद्धोऽस्म्यनुगृहीतोऽस्मि त्वया श्रीकृष्णरूपिणा श्रीकृष्णपद्धतिसाक्षात् श्रुता वै विधिवन्मया अहो लोका लोकामहामूढा लोभमोहमदान्विताः नाप्नुवन्ति वैराग्यम् भजन्ति न हरिम् क्वचिद भगवन्नस्य जगदो मोहकारणमद्भुतम् कथम् जातम् वद विभो कथ मेदन्निवर्तते श्रीव्यास उवाच यथाम्भसि प्राप्तमदो विधो कदस्तत्प्रेक्षदे केवलमेव वेगतः तथा हि बिम्बपरमस्य मायया ममेत्यखम् मा भगवते प्रवर्तते दे, प्रधानकालाशय देहजैर्गुणैः कुर्वन् विकर्माणि जनो निबध्यदे काचेर्भगं सैकत एव जीवनम् गुणे च सर्पम् प्रतनोदि सोऽक्षिभिः राजन् जगन्मोहमयम् रजोमयम् तमोमयं सत्त्वमयम् तथा क्वचिद मनोविलासं विकृतं च विभ्रमं विध्याश्विदं लोलमलादचक्रवद इदम् करिष्यामि करोम्यभुवम् मेदमस्तीतिज वेद मा ब्रुवन् अहं सुखी दुःखयुधः सुहृज्जना लोकस्त्वहङ्कारविमोक्षितो मदः उग्रसेन उवाच वदं कृपया ब्रह्मलक्षणं परमात्मनः कथयिता कवयकृष्णं वदन्ति जपवत्मनि श्रीव्यास उवाच सनातनस्यात्र न मृत्युजन्मनि न शोकमोहौ न जरायुवादयः व्याधि युदो व्याधियुदोभयं सुखम् शुचः क्षुदेचानरतिर्न चाधयः आत्मा निरीहो यदनुः स सर्वगो नासं कृति शुद्धबलो गुणाश्रयः स्वयंवरो निष्फल आत्ममंगलो ज्ञानात्मको यो विदितो मुनीश्वरैः जागतीयोस्मिन् चयनं गदे नायं जनो वेदस वेदतं हितं पश्यन्तमाद्यं पुरुषं हियं जनो न पश्यन्ति स्वच्छमलं भजे यथा न भोग्निपवनो न सज्जदे कडेन काष्ठेन रजोभिरावृतः तथा पुमान् सर्वगुणैश्च निर्मलो वर्णैर्यथा स्यास्फटिगोपमोज्ज्वलः व्यङ्ग्येन वा लक्षणया च वाग्धैरर्थैः पदस्फोटपरायणैः परम् न ज्ञायते तद्गुणिनोत्तमेन सद्वाच्यम् ततो ब्रह्म कुतस्तु लौकिकैः वदन्ति केचिद्भुवि कर्म कर्तृ यत्कालम् च केचित् परमेव शोभनम् केचिद्विचारम् प्रवदन्ति यच्च तद्ब्रह्मे दिवेदान्तविदो वदन्तीहि न स्पृशन्तिह गुणा न कालजा मायेन्द्रियं चित्तमनो न बुद्धयः महन्न वेदो वदति इति तत्परं विशन्ति सर्वे नलविस्फुलिङ्गवद हिरण्यगर्भपरमात्मतत्त्वं यद्वासुदेवं प्रवदन्ति सन्तः विचार्य तद्देव वरस्वरूपं विसृज्य मोहं विचरेदशङ्कः यथोन्दुरो यथेन्दुरेको जलपात्रवृन्दगो यथा अग्निरेको विदिदसमिच्चये तथा परात्मा भगवाननेकविदन्तर्बहि स्यात् स्वकृतेषु देहिषु सूर्योदयेनैशतमो प्रदृश्यते वस्तुगृहे यथा जनैः ज्ञानोदये ज्ञानतमप्रलीयते संप्राप्यदे ब्रह्मपरम् तनौ तथा यथेन्द्रियाणां च पृथक् प्रवृत्तिभ्यर्नेव तेर्थोदि गुणाश्रयः परः ये कम् ह्यनन्तस्य परस्य धाम तप्तधा मुनीनां किल शास्त्रधर्मभिः साक्षाधरिध्य पुरुषोत्तमोत्तम श्रीकृष्णचन्द्रो निजभक्तवत्सलः कैवल्यनाथो नृगमुज्जहार तं पूर्णं स्वयं ब्रह्मपरं नमाम्यहं श्रीनारद उवाच इत्युक्त्वा तमनुज्ञाप्य भगवान् बादरायणः पश्यतां यादवानां च तत्रैवान्तरधीयदा इदं मया हरिभक्ति कथितं हरिभक्तिविवर्धनं विज्ञानखण्डं विशदं श्रोतॄणामोक्षदं स्मृतं गर्गाचार्येण कथिता नाम्नेयं गर्गसंहिता सर्वदोषहरा पुण्यचतुर्वर्गफलप्रदा गोलोकवृन्दावनयोर् गिरीश्वर माधुर्ययो श्रीमधुरापुरस्य ज द्वारापदिविश्वजितोर्हलायुध विज्ञानयो कण्डजया पृथन्नव श्रीकृष्णमूर्तिपरमैरसैर्यथा यथा च भूमिर्भरदादिभिर्मृश्यं तथा हि शश्वन्मुनि गर्गसंहिता विभादिखण्डैर्नवभिर्नृपेश्वर यथा हि रत्नैर्नवभिर्विराजते देवाङ्गुलौ तप्तसुवर्णमुद्रिका तथा चतुर्वर्गबलप्रदेविधौ सर्गैर्विसर्गैर्मुनि गर्गसंहितां नरेन्द्रशश्वन्मुनिसंहितां ये शृण्वन्दिभक्त्या हि जनाः इहैव सौख्यं परमाप्नु वन्दस्ततस्तु गोलोकपुरं प्रयान्ति कृत्वाध पीताम्बरवन्दनं त्वं शृणोति वन्द्या बहुलालसा भृशं हृस्वेन कालेन गृहाङ्गणे शीशून सञ्चालयन्ती विचरत्यहर्निश्यम् रोगी पुमान् रोगगणात् प्रमुच्यते भीदोभयात् बन्धगदश्च बन्धनाद् श्रुत्वा कथं निर्धनयेदि वैभवं मूर्खो भवेत्पण्डित एव सत्वरं यः कार्त्तिके मासि नृपश्रियायुधः शृणोदि शश्वन्मुनिगर्गसंहिताम् स चक्रवर्ति पविता न संशयो नरेन्द्रहस्तो धृतचारुपादुकः मनोजवै सिन्धुतुरङ्गमैर्न वैर्द्वीपैश्च विन्ध्याजलसम्भवै परैः वैतालिकोद्गीतयशामहीतले निषेविदो वारवधूजनैः सह सुवर्णशृङ्गं वरदाम्रपृष्ठम् सभूषणम् रौप्यखुरम् सवत्सं ददाधिखण्डम् प्रदिगोद्वयं यः प्राप्नोति सर्वं हि मनोरथं सः निष्कारणोऽसौ शृणु दे विदेहराड सर्वामिमाम् वैमुनिगर्गसंहिताम् हृत्कुण्डरीगे वसतेस्य सर्वदा श्रीकृष्णचन्द्रो निजभक्त वत्सलः श्री गर्ग उवाच इत्युक्त्वा तमनुज्ञाप्य नारदो देवदर्शनः सर्वेषां पश्यतां ब्रह्मन्नम्बरं गतवान् मुनिः बहुला शिवमहाराज श्रीकृष्णेन लक्नसः श्रीकृष्णे लक्नमानसः सर्वतस्तु कृतार्थो भूच्छुत्वे मां संहितां हरेः तव प्रश्नोपरि ब्रह्मन् कथिता संहिता मया श्रुता वा पठिता कैश्चित् कोटियज्ञफलप्रदा श्रीशौनक उवाच धन्योऽहं च कृदार्थोऽहं स्वत्सङ्गेन महामुने प्राप्नोमि परमां भक्तिं श्रीकृष्णप्रेमवर्धिनीं विशदहृदि मुनीनां मानसे राजहंसः विराजन्नादमाधुर्यवंशः जगदि विकलदंशूरवंशावतंसः करबलकदकं सपादुवसत्प्रशंसः इत्युक्त्वा तान्मुनीन् सर्वान् गर्गाचार्यो महामुनिः अनुज्ञाप्य प्रसन्नात्मा गन्धो माभ्युद्यदो भवद नवसर्गविसर्गाढ्याम् स्वर्गभृद्गर्गसंहितां चतुर्वर्गप्रदामुक्त्वा गर्गो गर्गाचलं ययौ शरद्विकच पङ्कजश्रियमदीव विद्वेषगम् मिलिन्दमुनिलेटितं कुलिश कञ्च चिह्नावृतं स्फुरत्कनकनूपुरं दलितभक्ततापत्रयं चलद्विधिपदद्वयम् हृदि दधामि राधापदेः यदि श्रीगर्गसंहितायां विज्ञानखण्डे श्रीनारदबहुलाश्वसंवादान्तर्गत श्रीव्यासोग्रसेनसंवादे परब्रह्मनिरूपणं नाम दशमोऽध्यायः ओम्